त्रिंशोऽध्यायः द्रौपद्युवाच नमो धात्रे विधात्रे च यौमोहञ्चक्रतुस्तव पितृपैतामहे वृत्ते वोढव्येतेऽन्यथामतिः कर्मभिश्चिन्तितो लोको गत्यां गत्यां पृथग्विधः तस्मात् कर्माणि नित्यानि लोभान्मोक्षञ यी यासति नेह धर्मादृशं स्याभ्यान्न क्षान्त्यानार्जवेन च पुरुष श्रियमाप्नोति न त्वाम् च व्यसनमभ्यागादिदम् भारत दुःसहम् भ्रातरस्ते महौजसः न हि तेभ्यगमम् जातु तदानीम्नाद्य भारत धर्मात्प्रियतरम् किञ्चिदपि चेज्जीवितादिह धर्मार्थमेव ते राज्यम् धर्मार्थम् जीवितम् जानन्त्यपि च देवताः भीमसेनार्जुनौ चोभौ माद्रेयौ च मया सह त्यजेस्त्वमिति मे बुद्धिर्नतु धर्मम् परित्यजेः राजानम् धर्मगुप्तारम् धर्मो रक्षति रक्षितः इति मे श्रुतमार्याणाम् त्वाम् तु मन्येन रक्षति अनन्याहि नरव्याघ्रनित्यदा धर्ममेव बुद्धिः सततमन्वेतिच्छा एव नवमंस्था सदृशा ना वरांयस कवाप्य पृथ्वीना ते वर्धत।